वत् पाद पर्ण पर्कमात्रसंभोगसङ्गिनं गले पादिकयानाथ मां भवत भवत् पादाम्बुजः रजः राजे र मूर्धचः अपाररभसाभ नर्तनः श्यामहं कदा त्वदेकना पादो विरोपक्षत्येव नृत्ययमारटन् पत्पादपद्मसपक्ष परिमित लोचनः विजृम् मदिरा मदघूणेतः यत्र देवी समेतस्त्वम् आसौधादा च गोपुरात् बहुरूपः स्थितस्तस्मिन् वास्तव्यः याव मे रे पूजनायते प्रसीद भगवन् ये शिवेवगले देव प्रहर्षाथ शोकाद्मा यदि घटादपि बाहि स्वपाद संस्पर्शोधा सरसोऽन्तर्निमज्जनं कोऽप्येष सर्वसंभोगलङ्गी भोगोऽस्तु मे सदा अशेष भुवना नित्यतृप्तः सुखासनम् स्वामिन् गृहाण दासे शुप्रसादा लोकनक्षणम् अन्त णः नमो मयम् शिवायेदि पूजयन् स्यां तृणान्यपि आकाङ्क्षणीयम् अपरम् येन नाथ न पूर्णता हस्यते नृत्यते यत्र रागद्वेषालिपुज्यते पीयते भक्तिपीयुष रसस्तत् प्रा